अथ अष्टादशाधिकशततमोऽध्यायः वैशंपायनवाचा उवाच तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवं सभार्यशोकदुःखार्थः पर्यदेव यदातुरः पाण्डुरुवाच सतामपि कुले जाताः कर्मणा दुर्गतिं प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः शशवद्धर्मात्मना जातो बाल एव पिता मम जीवितान्तमनुप्राप्तः कामात्मैवेति न तस्य कामात्मनः क्षेत्रे राज्ञसंयतवागृशिः कृष्णद्वैपायनः साक्षात् भगवान् मामजीजनात् तस्याद्य व्यसने बुद्धिः सञ्जातेऽयं म माधमा त्यक्तस्य परिधावतः मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् अतीव तपसात्मानं योजयिष्याम्य संशयं तस्मादेकोऽहमेकाकी एकैकस्मिन् वनस्पतौ चरन् भैक्ष्यं मुनिर्मुण्डश्चरिष्याम्याश्रमानि पां सुना समवच्छन्नः शून्यागारकृतालयः वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः न शोचन्न तुल्यनिन्दात्मसंस्तुतिः निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः क्वचित्